शि शेखर धारनाय कर्परकान्त्य धलाय जटा धराय धारित्र दुख दहनाय नम शिवाय गौरी प्रियाय रजनीशकला दरा पुजगान्धि पकङ्कनाय गङ्गाधराय गजराज विमर्दनाय धारित्र दुःखनाय नम शिवाय भक्ति प्रियाय भवरो तिर्मयाय गुणनामसुनृत्तिकाय धारित्रदुःखदहनाय नमः शिवाय चर्माम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय मञ्जीरपादयुगलाय जटाधराय धारित्रदुःखदहनाय नमः शिवाय पञ्चात्ननाय फणिराजविभूषणाय हे मांशुकाय भुवनात्रय मण्डिताय स्वाय भानप्रियाय भवसागरतारणाय कालान्तकाय कमलासन पूजताय न्याय शुभ लक्षताय धारित्र दुःखदहनाय नमः शिवाय रामप्रियाय रघुनाथवर प्रदाय नाग प्रियाय नरका नवतारनाय पुण्येश पुण्यभरथाय सुरार्चिताय धारित्र दुःखदहनाय शिवाय मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय मातङ्गचर्मवसनाय महेश्वराय धारित्रदुःखद वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् त्रिसन्ध्यं यः